एकादशोऽध्यायः डुण्डुभ उवाच सखा बभूव मे पूर्वम् खगमो नाम वै द्विजः भृशम् संशितवाक्तात तपो बलसमन्वितः स क्रीडता बाल्ये कृत्वा तार्णम् अग्निहोत्रे प्रसक्तस्तु भीषितः लब्ध्वा स च पुनः सञ्ज्ञाम् मामुवाच तपोधनः निर्दहन्निव कोपेन सत्यवाक्संशितव्रतः यथा वीर्यस्त्वया सर्पः कृतोऽयम् तथा वीर्यो भुजङ्गस्त्वम् मम शापाद्भविष्यसि तस्याहम् तपसो वीर्यम् जानन्नासम् तपोधन भृशमुद्विग्नहृदयस्तमवोचमहम् तदा प्रणतः सम्भ्रमाच्चैव प्राञ्जलिः पुरतः स्थितः सखेति सहसेदम् ते नर्मार्थम् वै मया क्षन्तुमर्हसि मे विनिवर्त्यतां शापोऽयम् विनिवर्त्यताम् सोऽथ मामब्रवीत् दृष्ट्वा भृशमुद्विग्नचेतसम् मुहुरुष्णम् विनिःश्वस्य कथञ्चन यत्तु वक्ष्यामि ते वाक्यम् शृणु तन्मे तपो श्रुत्वा च हृदि वाक्यमिदमस्तु सदा नघ उत्पत्स्यति रुरुर्नाम प्रमतेरात्मजः शुचिः तम् दृष्ट्वा शापमोक्षस्ते भविता न चिरादिव सत्त्वम् रुरुरिति ख्यातः प्रमतेरात्मजोऽपि च स्वरूपम् हितम् स डौण्डुभम् परित्यज्य रूपम् विप्रषभस्तदा स्वरूपम् भास्वरम् भूयः प्रतिपेदे महायशा इदम् चोवाच वचनम् रुरुमप्रतिमोजसम् अहिंसा परमो धर्मः सर्वप्राणभृताम् वर तस्मात्प्राणभृतः सर्वान्नहिंस्याद्ब्राह्मणः क्वचित् ब्राह्मणः सौम्य एवेह भवतीति पराश्रुतिः वेद वेदाङ्गविन्नाम सर्वभूताभयप्रदः अहिंसा सत्यवचनम् क्षमा चेति विनिश्चितम् ब्राह्मणस्य परो धर्मो वेदानाम् धारणापि च क्षत्रियस्य हि यो धर्मः सहि नेष्येतवै तव दण्डधारणमुग्रत्वम् परिपालनं परिपालनम् क्षत्रियस्यासीत् कर्म वैशृणुमेरुरो जनमे जयस्य जयसर्पाण हिंसनम पुरा पैंत्रीना सर्पाण ब्राह्मणादि तपोवीयोपेताेद वेदा वेदांगपार आस्ती काज मुख्याप्रे जोत्म श्री महाभार आदिपर्णि पौलोम पर्व डुंडुभापमोक्षकादशोध्याय